सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि विद्य मे सदा धन्यवादः नमस्ते बेनि नमस्ते गणेशपर्विणः शुभाशया सर्वेषां किञ्चित् पुनः स्मारणं त प्रत्यय तव तु प्रत्यय यत् वयं पठितवन्तः तस्य विषये वयं दृष्टवन्तः त प्रत्यय इत्युक्ते कर्मणि भूतकालवाचिक धातुसाधितं तव तु प्रत्यय कर्तरि भूतकालवाचिक धातुसाधित तत्र वयं दृष्टवन्तः पठि इत्याप यदि तक पाठ पठि पाठ पठि अन क्यों पठित का्यम पठित कविता पठिता ओके कर्मपदम असृत्य रूपी ततय कर्मी भूतकालवाचक तवतु साधित परंतु तव प्रत्य प्रत्य तो प्रत्यय पढ़ितव तो प्रत्यय कर्तरी भूतकालवाचक धा साधित कर्तरी प्रयोग अत्यं यद वास्तवन पाठ पठि मैं पाठ पठि मैं तृतीयांत अस्मत् तृतीयान्तपदं तत्र मया इति तृतीयान्तपदं कर्मणि प्रयोगः भवति अतः मया पाठः पठितः अत्र पाठः अस्ति कर्मपदम् अब्जेक्ट् इति पाठः कर्मपदं तप्रत्यय कर्मणिभूतकालवाचिका तु साधित अतः तप्रत्यय कर्मपदमनुसरति मया पाठः पठितम् इदानीं वदन्तु तव तु प्रत्ययान्त पठितः इति पठधातोः तव प्रत्यान्तरूपं पठधातोः तव तु प्रत्यान्तरूपं किम् एनिबडि केन् एन् आन्सर् तव तु प्रत्ययान्तरूपं पठधातोः सम्यक् मया हा हा। तवतु, अहम वादा मैं पाठ पठि तव तो प्रतीवाक्यम त्र पठित पढ़ित आगछति संपूर्णवाक्य पिवर्तन कथम भविवा मैं पाठ पठि पठित क्रियापद स्था आग्छतिदान मैं पाठ तर कव कौती अहम् पाठम् पठितवान् अत्र कर्ता कर्ता इति अहमस्मि अहं पाठम् पठितवान् सः पाठम् पठितवान् सा पाठम् पठितवती सा इति कर्तुपदम् सा इति स्त्रीलिङ्गी अतः पठितवान् इ चेञ्जिङ्ग् टु पठितवती सः पाठम् पठितवान् सा पाठम् पठितवती पाठं पठितवत्यः एवं खलु सः पाठं पठितवान् ते पाठं पठितवन्तः ओके okay? सो so, कर्मणि भूतकालवाचिक् धातुसाधित तप्रत्ययान्तरूपं कर्तरिभूतकालवाचिक् धातुसाधि तव तु प्रत्ययान्तरूपम् सर्वेषां कृते स्पष्टतया अवगमनम् अभवत् इति मन्ये स्पष्टमस्ति सर्वेषाम् अग्रेसरी अग्रेसरे अद्यदिनस्य विषयः अस्ति भविष्यत्कान् सामान्य भविष्यत्कान् भविष्यत्कान् फ्यूचर् टेन् अत्र यदा पठ एव धातु धा वो स्वीकु पठ हो धा लट्लूप कि पटती पटत पटं पटती पटत पठत पटा पटाव पटा सब्य लट्ले प्रथमपुरुष एक वचन पठती तदुसारेण पठती पठत पठती है नौ? सर्वे तत्र तश ला सी लट् लोट लोट इंपरेटिव लास्टेज लुट है फ्यूचर नाते लिंग अस्ट आशीर्लिंग अस्ट अन लिट् अस्त लुट अस्टु लु अस्ट लु अ दशल अत्र सामान्य काले तस्य अविष्य भेद सामान्य तेद काले एक हम लिखि दर्शिया कठधातुः एव वयं स्वीकुर्मः Thank you. पठधातोः कृते तत्र दृश्यते सम्यक् सर्वेषां स्क्रीन् दृश्यते पठ हा अनिता भगिनी श्रूयते श्रूयते पठ अस्ति अनन्तरं लट् लकारे वयं कथं कुर्मः अ तुरुणत इति आगच्छति अ इति विकरणप्रत्ययः इदानीं तस्मिन् विषये अधिकं चर्चा इदानीं न मा कुर्मः वयम् अनन्तरं तत् पश्यामः किमस्ति इति पठ अपि अतः यत् रूपं सिध्यते लटलकारे तद्भवती पठति अस्तु वर्तमानकाले भविष्यत्काले किं भवति तत्र पठ अस्ति अनन्तरं इडागम भवति इ इति आगच्छति इति नून्या इडागम इठ् आगमः इठ् आगच्छति टकार इत संज्ञा टकार गोजवे तत् अनुबन्धलोपानन्तरम् इ इति रूपम् अनन्तरम् आगच्छति स्यति यथा प्रथमपुरुष एकवचने लट्लकारे टि आगच्छति तथैव प्रथमपुरुष एकवचनं भविष्यत्काले स्यति इति आगच्छति परन्तु केवलं पठस्यति एवं नास्ति तत्र द्वयोः मध्ये इ इति आगच्छति अतः किं भवति पठ योग इ योगस्यति किं भवति प्रथमता तु पतिश्यती। पतिश्यती। प्रथम पठिष्य अन सत्य मूर्धन्य पठिष्यम निष्प्य कि इट इतस् व्याकर अंश सी स्थूलूपेण वश्या कथमता तो पठिष्य अन पठयोग इ योगस्यति पठिष्यति अनन्तरं तत्र इ अस्ति अतः सकारस्य चकारे परिवर्तनं भवति मृर्धन्यं पठिष्यति इति रूपम् तथैव यदि अहं वदामि धाव धाव तत्रापि इ आगच्छति अनन्तरम् स्यति आगच्छति किं रूपम् इदानीम् धाविष्यति धाविष्यति इति रूपम् इत्युक्ते तत्र इकार इ आगच्छति इ इस् कथम् इ आगच्छति तस्य उत्तरं व्याकरणदृष्ट्या एवमस्ति सेट् अनिट् व्याकरण अंशाः सन्ति सारांशरूपेण अहं वदामि सेट् अनिट् स इट् स इट् सेट् अनिट् अन् इट अन् इट् इत्युक्ते इत। इत। इत। इत। केचन धातवः तेषां कृते इठ् आगच्छति दे आर् इट सहित स इट इट् सहित सेट् धातवः केचन धातवः अनिठ् अन् इठ् नास्ति अन् इठ् यत्र इठ आगच्छति तत्र रूपाणि भवन्ति धाविष्यति गमिष्यति क्रीडिष्यति लिखिष्यति निन्दिष्यति फलिष्यति सो सान् so यत्र इक् इत इडागम् इ इति न आगच्छति तत्र पश्यामः पा इति धातु पा कृते इ न आगच्छति कथं भवति पा योगस्यति किं रूपं वदतु पास्यति पास्यति इति रूपं पास्यति ज्ञा अस्ति ज्ञा तत्रापि इट् न आगच्छति कथं भवेत् रुस्यति ज्ञास्यति ज्ञास्यति दा अस्ति दा तत्रापि इट् न आगच्छति दास्यति अस्तु ज्ञास्यति दास्यति पास् पास्यति यदा इट् आगच्छति चेत् किं भवति इ भूत्वा स्यति इति भवति तत्र एकं सूत्रमस्ति आदेशप्रत्ययोगः तेन कारणं वृर्धन्यषकार तत्र आगच्छति यदा इट् न आगच्छति इ नास्ति अन् इट् अनिट् अस्ति चेत् पास्यति दास्यति एवं रूपाणि भवन्ति इति स्थूलप्रकारेण भविष्यत्कालस्य विषये लटलकारे व्याण अंश वृ्टव इद कू लट्ल यहां पठतीदम अठिष्य लट्लपुरुष एक वचन पठ अस््यम बचिष्यं यदा पठती पठिष्य तादृशम् अन्यानि रूपाणि प्रथमपुरुषे एकवचनं प्रथमपुरुषे द्विवचनं प्रथमपुरुषे बहुवचनं मध्यमपुरुषे एकवचनं द्विवचनं बहुवचन उत्तमपुरुषे एकवचनं द्विवचनं बहुवचन एतादृशरूपाणि अपि भवितुमर्हति पठिष्यति कोऽपि प्रयत्नं करोति वा रमणी भगिनी भवती प्रयत्नं करोति वा किं भवेत् इति पठिष्यति पठन् ई प्लस् हा किं वदनीयं वदामि पठति पठ पठति पठतः पठन्ति पठिष्यति पठि पठिष्यतः पठि पठिष्य एवं वद वदतु एकवार पठिष्यति पठिष्यतः पठिष्यन्ति सम्यक् मध्यम पुष्द प्रयत्न कौत पढ़िष्य पड़िश्य पढ़िष्य पढ़्यथ उत्तम आम, उत्तम पुष्द वदिषि पढ़िषा धन्यवाद भविष्य कालू सग्रेस एवं रूपाणि अस्ति लुट्लकार पठधातुरूप भविष्यत् कालविषयदत्तमस्ति श्यामलाभगिनी भवती पठति वा स्क्रीन् मध्ये यद् दृश्यते तत् पठति वा श्यामलाभगिनी लुट्लकार भविष्यत् पद्मपुरुष पठिष्यति पठिष्यतः पठिष्यन्ति मध्यमपुरुष पठिष्यसि पठिष्यतः पठिष्यत उत्तमपुरुष पठिष्यामि पठिष्यावः पठिष्यामः सम्यक् अग्रिमे अस्तु इदानीं राधाभगिनी राधाभगिनी आं भगिनी तत्र धातवः सन्ति मध्ये स्यति इति अस्ति स्यति इत्युक्ते भविष्यतकालप्रत्ययः लुट्रकारस्य प्रत्ययः इदानीं रूपाणि साधयतु क्रीडिष्यति सम्यक् खादिष्यति सम्यक् हास्यति ह तद्भवती हसिष्यति हशि ओ सोरि सोरि हसिष्यति सम्यक् हसिष्यति भ्रमिष्यति भ्रमिष्यति सम्यक् उत्तमम् उत्तमम् इदानीं तस्य प्रथमपुरुष एकवचनान्त द्विवचनान्त बहुवचनान्त केवलप्रथमपुरुषं वदति वा आम् क्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति खादिष्यति खादिष्यतः खादिष्यन्ति हाषिष्यति हषिष्यति हषिष्यति हषिष्यति हषिष्यतः हषिष्यन्ति भ्रमिष्यन्ति भ्रमिष्यति भ्रमिष्यति भ्रमिष्यति भ्रमिष्यतः भ्रमिष्यन्ति उत्तमम् उत्तमं भगिनि उत्तमं धन्यवादः धन्यवादः वीणा भगिनी इदानीम् उत्तमपुरुषस्य त्रीणि रूपाणि वदति वा सर्वेषां धातूनां कृते उत्तमपुरुष्यामि खादयिष्यामि खादिष्यामि खादामि पुनः एकवारं एकवारं वा खाद अधिक, ए, अधिक, खाद अधिक इ अधिकसति खादि अधिकस्यति इ आगच्छति सकारात् पूर्वं ई आगच्छति अतः तत्र एकं सूत्रं कार्यं करोति आदेशप्रत्ययो तेन सकारस्य मूर्धन्यशकार भूत्वा खदिष्यति उत्तमपुरुषस्य रूपं खदिष्यामि एवं भवति वदतु खादिष्यामि द्विवचन खादिष्या खादिष्या खादिष्या खादिष्यवः अहम् खादिष्यावः खादिष्यामः सम्यक् उत्तमं क्रीडधातोः कृते वदतु क्रीड क्रीडयिष्यामि क्रीडिष्यामि क्रीडिष्यामि क्रीडिष्यामि क्रीडिष्याव क्रीडिष्यामि क्रीडिष्यामः क्रीडिष्यावः क्रीडिष्यामः अग्रिमे भ्रमधातौ कृते वदतु भ्रमिष्यामि भ्रमिष्यावः भ्रमिष्यामः सम्यक् हसकृते हसकृते वदतु हसिष्यामि हसिष्यावः हसिष्यामः उत्तमम् उत्तमं स्पष्टमस्ति एवं रूपाणि सन्ति तत्र खादिष्यति हसिष्यति क्रीडिष्यति भ्रमिष्यति यथा लेटर लट् लकारप्रथमपुरुषरूपाणि भवती, रूपं भवती तादृशे एव लुट् एकं निमिषम् एकं निमिषं भव भगिनी पठधातु स्क्रीन् पुनः एकवारं दर्शयति वा हा पठधातोः लुट् लकारः हा हा पश्य हा अत्र धन्यवादः भ्रमिष्यति हसिष्यति खादिष्यति क्रीडिष्यति इदानीं प्रश्नम् उदेति सर्वेषां धातूनां कृते तत्र ईष्यति ईष्यति एव मन्तिमा आगच्छति वा तद् नास्ति तत् वयं दृष्टवन्त इदानीं यदा धातोः कृते ई आगमन भवति धातोः अन् इति अस्त तूति नवती पर पाती केल सती योजना तत्र भवति तबाईक इधं किंचित अभ्यास कूम त्रेचन धातव सीपा वो कूड़ जयंती भगिनी होती कौती वम धा त Hmm. लुट्लका प्रथमपुरुष hmm. एकवचन द्विवचन hmm. बहुवचन okay. गम ओके गम् दातु गमिष्यति गमिष्यतः गमिष्यन्ति मध्यमपुरुष गमिष्यति गमिष्यतः गमिष्यत गमिष्यामि गमिष्यावः गमिष्यामः पश्यन्तु सर्वे अस्माकं जालपुटे तत् केवल प्रथमपुरुष एकवचनान्त प्रथमपुरुष बहुवचनान्तरूपं तथैव उत्तमपुरुष एकवचनान्तम् उत्तमपुरुष बहुवचनान्तरूपम् एतादृशीयरूपाणि सन्ति परन्तु अहं चिन्तितवती प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष सर्वेषाम् अवगमनं यदि सम्यक् प्रकारे प्रकारेण वयं कर्तुं शक्नुमः चेत् वरम् अतः तत् अहं तस्य अपि अध्ययनं वयं कुर्मः इति चिन्तित्वा तत्र अतिचि विचित्य अहम् अदत् धातोः अत्र उपयोजनं करोमि अस्तु जयन्तीभगिनी चलधातोः कृते अपि वदतु अनन्तरम् अन्य कोऽपि वदतु चलिष्यति चलिष्यतः चलिष्यन्ति चलिष्यति चलिष्यतः चलिष्यत चलिष्यामि चलिष्यावः चलिष्यामः सम्यक् उत्तमम् उत्तमम् अवश महोदय अवशो महोदय तथा च खेल तथा च गर्ज धातुत्रयं स्वीकृत्य सर्वाणि रूपाणि वदति वा भविष्यति सम्यक् भविष्यतः भविष्यन्ति भविष्यसि धविषथः धविषथ्या धविषथ धविष्यामि धविष्यावः धविष्यामः सम्यक् खेल खेल खेल् खेलिष्यति खेलिष्यतः खेलिष्यन्ति खेलिष्यसि खेलिष्यथः खेलिष्यथ खेलिष्यामि खेलिष्यामः खेलिष्यामः उत्तमं गर्ज गर्ज गर्जि गर्जिष्यति गर्जिष्यतः गर्जि गर्जिष्यथ गर्जिष्यन्ति गर्जिष गर्जिष्यसि गर्जिष्यः गर्जिष्यजिष्यामि गर्जिष्यावः गर्जिष्यामः उत्तमम् उत्तम महोदय उत्तम धन्यवाद धन्यवाद श्रीवत्समहोदय भवान् वदति वा पत् पतिष्यति पतिष्यतः पतिष्यन्ति पतिष्यसि पतिष्यथः पतिष्यथ पतिष्यामि पतिष्यावः पतिष्यामः स्फूरिष्यति स्फूरिष्यतः स्फूरिष्य स्फूरिष्यन्ति पूरिष्यसिरिश् पूरिश् सि पूरिष्यथः एकनिषं तत्र स्फु इति अस्ति स फु हा अत्र किमस्ति महोदय अस्माकं कृते तत् फ फकारस्य उच्चारणं हिन्दीभाषायां तत् सिने सङ्गीत् इति पश्यामः चेत् तत्र, चे, तत्र भिन्नप्रकारेण ते फ इत्यस्य उच्चारणं कुर्वन्ति परन्तु संस्कृतभाषां स्पष्टतया उच्चारणं भवेत् इति एवं स्फूरिष्यामि स्फुरिष्यावः स्फुरिष्यामः उत्तमं निन्द अपि करोतु निन्दयिष्यति निन्दयिष्यतः निन्दिष्यति सोरि निन्द योग ई योगति निन्दिष्यति निन्दिष्यति निन्दिष्यतः निन्दिष्यन्ति निन्दिष्यति निन्दिष्यथः निन्दिष्यथ निन्दिष्यामि निन्दिष्यावः निन्दिष्यामः सम्यक् उत्तमम् उत्तमम् उत्तमं महोदय अनिता भगिनी भवती करोति वा करोमि किं हिंसिष्यति हिंसिष्यथः हिंसिष्यन्ति हिंसिष्यसि हिंसिष यथः हिंसिष्यथ हिंसिष्यामि यावः हिंसिष्यामः चरिष्यति चरिष्यत चरिष्यन्ति चरिष्यसि चरिष्यथ चरिषथ चरिष्यामि चरिष्यावः चरिष्यामः उत्तमं भगिनि उत्तमम् इतोपि एकम् अभ्यासं कुर्मः अनन्तरं जालपुटे यद् दत्तमस्ति तत् अपि वयं पश्यामः भवती आरम्भं करोति वा अनिता भगिनी आम् भगिनी भविष्यत्कालरूपाणि सुभ्र सुब्रह्मण्यश्वविद्यालयं न गमिष्यति सः चिकित्सालयम् गमिष्यति तत्र वैद्यम् द्रक्षयति तेन स्वस्य अनारोग्यं निवेदयिष्यति सः श्वः न क्रीडिष्यति गृहे उपविश्य पाठम् पठिष्यति एकनिमिषम् अत्र सर्वे पश्यन्तु गमिष्यति गमिष्यति द्र इति अस्ति अनन्तरं करिष्यति क्रीडिष्यति पठिष्यति पत्र निवेदयिष्यति इति अस्ति कथं तत् निवेदयिष्यति अस्ति नि इति उपसर्ग य oh. तत्र धातुरूपे एव अन्तर्भूतः अस्ति निवेदय ईष्यति एवमस्ति य इति तत्र अन्तर्भूतः एव अस्ति अतः तत्र निवेदिष्यति एवं न भवति निवेदयिष्यति कथं वयं जानीमः तस्य उत्तरमस्ति अभ्यासेन पुनः पुनः पठनं कृत्वा एव वयम् अवगन्तुं शक्नुमः इति अस्ति हा अग्रिमे पठतु अनिता भगिनी सुब्रह्मण्यः सुब्रह्मण्य सुब्रह्मण्य श्वः किं करिष्यति इति तत्र लिखितम् अस्ति भवान् किं किं करिष्यति इति अत्र लिखतु सम्यक् सम्यक् धन्यवादः धन्यवादः अत्र सुब्रह्मण्यः महोदय तस्य दिनचर्या अत्र दत्तमस्ति श्वः किं गमिष्यति किं करिष्यति विद्यालयं न गमिष्यति तत्र अवकाशः अस्ति तस्य कृते न गमिष्यति विद्यालयं सः गमिष्यति समस्या अस्सी ज्वर अस्तवा अस्त स्वास्थ्य सत सिक्स तैद्यम द्रक्ष्य वैद्यम द्रक्ष्य संभाषण क्य अोग्यम निवेदय स्वयं अनाग्य विषय सेवेदनम क्य क्रीडिष्य शुट्ल भविष्य काल दर्शय तस् कृतमस्ति न क्रीडिष्य कथ न क्रीडिष्य स्वास्थ्य तत्र कि क्रीडनम कर्म न क्रीडिष्य गृह उप्य पाठ पठिष्यति विद्यालयं न गमिष्यति गृहे उपविश्य एव पाठम् पठिष्यति क्रीडनम् कृते तत्र स्वास्थ्य सम्यक् नास्ति करिष्यति पाठम् पठिष्यति स्वयमेव इत्युक्ते तत्र सुब्रह्मण्यमहोदय श्वः किं किम् करिष्यति इत इति तत्र दत्तमस्ति भवान् श्वः किं करिष्यति उदाहरणरूपेण तत्र दत्तमस्ति अहं श्वः मैसूरु गमिष्यामि तत्र किं करिष्यामि तत्र भोजनं करिष्यामि किं करिष्यामि वा इति स्वस्य भाषायां तस्य स्वस्य रचना किमस्ति रचना का एवम् एकमेकं एकम वदतु प्रथमम् आरम्भं करोति रमणी भगिनी आरम्भं आरूंग, करोति वा श्वः भवती किं किं करिष्यति इति प्रयत्नं करोमि <laughs> हा वद अहं uh, श्वः मैसूरु गमिष्यामि तत्र एवं तथा किं करिष्यति तत्र अहं वृन्दावनं गमिष्यामि वृन्दान उद्यानं गमिष्य गमिष्यामि गमिष्यति भवती गमिष्यति उत्तमं तत्र तत्र वृन्दा सायङ्काले वृन्दावनं द्रष्टुं गमिष्यामि गमिष्यामि गमिष्यामि सायं तत्र वदतु वदतु सायङ्काले मीन् अस्तमनसमये अस्तु सूर्यास्तसमये तत्र गमिष्यामि अहं तत्र फौण्टन् फौण्टन् फौण्टन् तस्य संस्कृतपद्ध तत्र विशि वैशिष्ट्यपूर्ण विद्युत् योजना तत्र भवति परन्तु फौण्टेन् इति कोऽपि जानति वा इदानीं न स्मरामि अन्वेषणं कृत्वा वदामि कोपि जानति वा अत्र फौण्टेन् इत्युक्ते अस्तु अहं वदिष्यामि अनन्तरं वैशिष्ट्य योजना दो तत्र भवति तत् तत्र लैट्निङ्ग् संस्कृतं विद्युत् एव जलाकर वा धन्यवादः जलाकरं पश्यामि जलाकरम जलाकरं जलाकरं रष्टं गमिष्यामि गमिष्यामि गमिष्यामि सम्यक् सम्यक् किमपि खदिष्यति वा भवती खदनस्य कोऽपि विषयः अस्ति वा तत्र तत्र अहं कन्नड कन्नडभक्षणं खादिष्यामि सम्यक् उत्तमम् उत्तमम् उत्तम। अस्तु धन्यवादः इदानीं धन्यवादः इदानीं राधाभगिनी भवती श्वः कुत्र गमिष्यति तस्मिन् विषये वदति वा आम् अहं श्वः मैसूर गमिष्यामि मैसूरे अहं श्वः बङ्गलूरे नगरं गमिष्यामि बङ्गलूरुनगरं गमिष्यामि तत्र तत्र महा तत्र मम भ्रातासति अहं भ्राता सह हम्पीनगरं गमिष्यामि उत्तमं भर्ता सह ओके तेन सह तेन सह हम्पीनगरं हम्पीनगरं गमिष्यामि तत्र हम्पीनगरं तत्र पाकशाला गमिष्यामि भोजनार्थं भोजनार्थम् अनन्तरम् पुनः नगरे आगमिष्यामि उत्तमम् उत्तमं सम्यक् इदानीम् अगस्ट् आग। आग, महोदय वदति वा भवान् किं किं करिष्यति एकनिमिषं तत्र हम्पी विषये एकम् एकं स्मरामि वैशिष्ट्यपूर्णमाहिति तत्र अस्ति तत् वदिष्यामि इदानीं हम्पीनगरस्य संस्थापकाः हरिहरबुक्कराय ते सर्वे जानन्ति खलु हम्पीनगरस्य संस्थापका बुक्कराय राजा बुक्कराय तस्य तस्य पुत्रः पुत्रस्य राजा राजाबुक्करायस्य स्नुषा गङ्गादेवी नाम्ना सा एका आ, सा काव्यं लिखितवती तस्मिन् समये तस्याः काव्ये तत्र बहूनि विषयाः अन्तर्भूताः संस्कृतभाषायाम् एव सा काव्यं लिखितवती गङ्गादेवी बुक्कराय महोदयस्य बुक्कराजाबुक्करायस्य स्नुषा काव्ये किं किम् अन्तर्भूताः किं किम् किम अन्तर्भूताः सन्ति तस्य विषये वदामि तत् तस्मिन् हम्पीनगरस्य विजयनगरसाम्राज्यस्य विषये सर्वेषाम् अवगमनम् इत्युक्ते तत्र किं किम् आसीत् तस्मिन् समये राजभवनस्य विषये उद्यानस्य विषये तस्य सम्पदा वैभवस्य विषये सर्वं सा वर्णितवती उत्कृष्टा काव्यरचना तस्या आसीत् तस्मिन् सा तस्याः ज्ञानस्य विषये अपि दत्तमस्ति सा रघुवंशं वा कालिदासस्य वाङ्मयं तस्य अभ्यासं कृत्वा एव सा रचितवती तत् अव गङ्गादेवी नाम्ना अस्माकं कृते अतीवमहत्त्वपूर्णमस्ति किमर्थमिति विजयनगरस्य इदानीं तु विजयनगरवैभव तस्य लोपः ज अभवत् तस्य लोपः अभवत् वैभवस्य किन्तु पूर्वस्मिन् काले कीदृशं दृश्यं तत्र आसीत् तस्य विषये सा काव्यरचना कृतवती तत्र नवखण्डाः सन्ति काव्ये नवखण्डाः सन्ति इति एकं वैशिष्ट्यपूर्णमाहिति अस्तु इदानीमपि वयं काव्यस्य अभ्यासमपि अनन्तरं कुर्मः साहित्यस्य अभ्यासमपि कुर्मः शनैः शनैः इदानीं सम्भाषणे प्रावीण्यता अनन्तरं काव्य अनन्तरं व्याकरणं कुर्मः सर्वम् अस्तु धन्यवादः राधा भगिनी धन्यवादः अगस्ट् महोदये भवान् वदति वा श्वः किं किं करिष्यति इति निश्चयेन aham shaha me isura gami shami antatra tatra vidyalayam gami shami ames no in the same place the, the next sentence ha huh. विद्यालयं गमिष्यामि तत्र छात्रान् मेलिष्यामिष्यामि ग्रन्थालयः पुस्तकानि पाठयामि पठिष्यामि पठिष्यामि पठिष्यामि संस्कृतभाषायाः विषये वदिष्यामि एवं खलु स्वस्य अध्ययनस्य विषये संस्कृतभाषायाः विषये छात्रान् वदिष्यामि वद बद, वदति वदिष्यति वदिष्यामि एवम् अस्तु, अस्तु अस्तु अस्तु अस्तु धन्यवादः इदानीं श्रीवत्सवमहोदय भवान् वदति वा किं किं करिष्यति तत् आं भगिनि अहं रविवासरे भारतं गमिष्यामि तत्र तत्र पर्यन्तं मङ्गलूरुनगरे नगरं गमिष्यामि तत्र मम मातापितरौ मिलिष्यामि अनन्तरं सुन्दरं भोजनं मम माता मम माता मम मम कृते पचिष्यति भोजनं खादिष्यामि मम मातुः भोजनं रुचिपूर्णं भविष्यति एवं वक्तुं शक्नुमः एवं खलु महोदय अस्तु अस्तु हा धन्यवादः उत्तमम् उत्तमम् इदानीं जालपुटे यद्दत्तमस्ति तस्य अपि एकवारम् अध्ययनं कुर्मः के दत्तमस्ति एतस्मिन् विषये तदपि पश्यामि अस्तु जयन्ती भगिनी भवती पठति वा जयन्ति भगिनी अधुभागे वा? दत्तानि वाक्यानि पठतु भविष्यत्कालरूपाणि mm. अवलोकयतु राहुलः mm. राहुलः लह, श्वः राहु किं किं करिष्यति इति अत्र लिखितम् अस्ति राहुलः mm. वैद्यः सः श्वः mm. चिकित्सा चिकित्सालु परीक्षायां क्योगा ओषधा दाषा उपयोग कथम करीय आरोग्याय उद्या अटिष्य गृह गत्वा सह भोजनं करिष्यति hmm. अत्र पश्यन्तु तत्र गमिष्यति अस्ति करिष्यति अस्ति परन्तु दास्यति अस्ति दास्य तत्र इकार न श्रूयते दास्यति बोधिष्यति अटिष्यति अटति अटिष्यति बोधति बोधिष्यति करोति करिष्यति दास्यति गमिष्यति एवमस्ति सम्यक् भगिनि सम्यक् उत्तमं धन्यवादः विणा भगिनी भवती पठति वा अवधेयं तथा आरभ्य भगिनि अवधेयम् अवधेयं तत्र दृश्यते ओके अवधेयं धातुः वर्तमानकालः एवं भविष्यत्कालः पठदातु पठति पठिष्यति mm. खाद् खादति खादिष्यति गम गच्छति गमिष्यति mm. धाव धावति धाविष्यति mm. हस् हसति हसिष्यति mm. पत, पत् पतति पतिष्यति mm. भ्रम भ्रमति भ्रमिष्यति चल चलति चलिष्यति वद वदति वदिष्यति अट अटति अटिष्यति बुध बोधति बोधिष्यति याच याचति याचिष्यति उप प्लस् विश्व उपविशति उपवेक्षयति उपवेक्ष्यति उपवेक्ष्यति उत् स्था उत्थास्यति सा उत्थास्यति सम्यक् हा तत्र भेदः उत्थास्यति उत्थास्यति सा तिष्ठति उत्थास्यति उत् उपसर्गपूर्वम् उत्तिष्ठति उत्थास्यति एवमस्ति इतोपि एकमस्ति तत्र बोधति बोधिष्यति अस्तु सम्यक् सम्यक् भगिनी धन्यवादः धन्यवादः भगिनि रमणी भगिनी विशेषरूपाणि पठति वा विशेषरूपाणि धातुः पा पा धातु पिबति पास्यति प्रच्छातु पृच्छति प्रक्ष्यति प्रक्षति तत्र न भवेत् तत्र प्रक्षति एवं भवति दा धातु ददाति दास्यति त्यज धातु त्यजति त्यक् त्यक्ष्यति त्यक्ष्यति त्यक्ष्यति ज्ञादतु जानाति ज्ञास्यति शक्तु शक्नोति शक्ष्यति शोधातु श्रृणोति श्रोष्यति लिखतु लिखति लेखिष्यति मिल् धातु मिलति मेलिष्यति ग्रहधातु ग्रहधातु गृह्णाति ग्रहीष्यति ग्रहीष्यति इति अस्ति ग्रहीष्यति उपप्लस् विश उपविशति उपवेक्ष्यति उत् योगा उत्तिष्ठति उद्धास्यति धन्यवादः अस्तु वयं कृतवन्तः किं किं करिष्यति विषये इदानीं भविष्यतकालरूपाणि वयं पश्यामः ओके आरम्भं करोति श्यामलाभगिनी भवती आरम्भं करोति वा भविष्यतकालरूपाणि वदामि भगिनि हा वदतु हा भविष्यत्काल खलु सः गच्छति वर्तमानकाल् सः गमिष्यति भविष्यत्काल् सः गमिष्यति एवं भविष्यत्काल सः गच्छति सः गमिष्यति सा लिखति सा लिखिष्यति सा लिखति सा पश्यन्तु अत्र दुक्तमस्ति लिख लिखति लेखिष्यति लेखिष्यति लेखिष्यति अग्रिमे लिखिष्यति स्क्रीन् दृश्यते न दृश्यते अन्यैः दृश्यते इदानीं दृश्यते वास्यति अहं शृणोमि एतत् न दृश् दृश्यति तृतीय भगिनि इदानीं अहं शृणोमि हरि ओम् शृणोति भगिनि ध्वनिः न श्रूयते वा श्रूयते भगिनि हा न श्रूयते श्रूयते भगिनि श्रूयते खलु अस्तु भगिनि भवती वदति वा अहं शृणोमि भविष्यत्काले किं भवति ते वदति वा वदामि भगिनि हा सा लिखति सा लेखिष्यति सम्यक् अग्रिमे अहं शृणोमि अहं श्रु शृणोति अह शृणोमि अत्र पश्यन्तु शृणोति अत्र श्रु शृणोति श्रोष्यति दृश्यते श्रो श्रोष्यति किं भवति श्रोष्यामि अहं शृणोमि अहं श्रोष्यामि भविष्यतकाल् अहं शृणोमि वर्तमान्काल् अहं श्रोष्यामि भविष्यतकाल् अग्रिमे सा आ, सा, त्यजा सा त्यजन् सा, त्यज्यति ते, हा पश्यन्तु अत्र त्यजति इत्यस्य ते किम् रूपम् त्यक्षति त्यक्षति सा त्यक्षति एवं भवती अग्रिमे क्रीडति रमेशः क्रीडति रमेशः ग्रीडिष्यति क्रीडिष्यति सम्यक् भगिनी उत्तमम् शिशुः पिबति शिशुः अन्य अन्यकरे अन्य अन्यकोपि अन्य कोऽपि तत्र आगच्छति अस्तु भगिनि अस्तु अस्तु, अस्तु धन्यवादः उत्तमः प्रयत्नः भगिनि अनिता भगिनी अग्रिमे करोतु शिशु। शिशुः शिशुः पास्यति गुरुः दास्यति सम्यक् छात्रः प्रक्ष्यति सम्यक् रक्ष्यति माता माता ज्ञास्यति ज्ञास्यति सम्यक् आगच्छति ज्ञास्यति अहम् अहं शक्ष्यामि शक्ष्यामि सम्यक् शक्ष्यामि ओके okay. बालकः उपवेश्यति उपवेश्यति सम्यक् कर्मकरः उत्स्थास्यति उत्थास्यति सम्यक् उत्तम उत्थास्यति अध्यापकः करिष्यति उत्तमं भगिनि इदानीम् एकं करोतु तत्र शक्नोमि इति अस्ति तस्य भविष्यत्काले प्रथमपुरुष उत्तमपुरुषरूपाणि वदतु ओ शक्ष्यामि शक्ष्यावः शक्ष्यामः ओ मध्यम पुरुषार्टिङ्ग् फ्रोम् प्रथमपुरुष खलु ओके शक्ष्यति शक्ष्यतः शक्ष्यन्ति शक्ष्यसि शक्ष्यथ शक्ष्यथ शक्ष्यामि शक्ष्यावः शक्ष्यामः उत्तमम् उत्तमम् उत्तमम् उत्तम जयन्ती भगिनी धन्यवादः भगिनी जयन्ती भगिनी आं उपवेशति इत्यस्य भूतकालरूपाणि वदन्ति वा सर्वेषु पुरुषाले भविष्यत्काले उपवेक्ष्यति उपवेक्ष्यति उप उपवेक्ष्यतः उपवेक्ष्यन्ति उपवेक्ष्यति उपवेक्ष्यतः उपवेक्ष्यत उपवेक्ष्यामि उपवेक्ष्यावः उपवेक्ष्यामः राधा भगिनी धन्यवादः भगिनी उत्तिष्ठति एतस्य भविष्यत्कालरूपाणि वदति वा उत्तिष्ठति बिकम्स् उत्तति तत्र उत्थास्यति इति भवति कथं भवति okay इति उत्थास्यति ओके उत्थास्यति उत्थास्यतः उत्थास्यन्ति उत्थास्यसि उत्थास्यथः उत्थास्यथ उत्थास्यामि उत्थास्यावः उत्थास्यामः उत्तमं भगिनि उत्तमं श्रीवत्स महोदय भवान् पृच्छति एतस्य भविष्यत्कालरूपस्य रूपाणि वदति वा पृच्छति पुर्च... आम... पृच्छ पृच्छति तत्र प्रक्षति इति भवति एकवारम् अत्र आ... अस्ति हा पच्छ पृच्छति प्रक्षति प्रक्षति प्रक्षतः प्रक्षन्ति प्रक्षति पृक्ष प्रक्षतः पृक्ष प्रक्ष्यामि प्रक्षावः प्रक्षामः उत्तमम् उत्तमम् इदानीम् अस्माकं कथायाः समयः ग्रामर इति नास्ति खलु अद्य दिने दृश्यते स्क्रीन् दृश्यते परन्तु वित् इट् मोन् नेम् स्क्रीन् इट् okay, क्लियर् yeah. yeah, um, okay? uh uh, <comUnotional> um, न सम्यक् अस्ति वेरिगुड् भगिनी एकैकम् अंशं स्वीकृत्य अहं वेणु वेणे अगस्तु महोदय आरम्भं करोति वा वेणुः समुत्पत्तिः वेणोः समुत्पत्तिः वेणु वेणुः षष्ठी वेणुशब्दस्य वेणुः वेणु इत्युक्ते वेणु इत्युक्ते भवान् वे लुट् तस्य समुत्पत्ति तस्य उत्पत्ति तस्य शोध शोधनकार्यं कथम् अभवत् वेणु किं कस्य हस्ते दृश्यते वेणु नु, वेणु इत्युक्ते लुठ् कस्य हस्ते दृश्यते वेणु श्रीकृष्णस्य हस्ते श्रीकृष्णस्य हस्ते परन्तु कथं वेणोः उत्पत्तिः अभवत् तस्मिन् विषये एषा कथा पठिष्यामः अस्तु आरम्भं करोतु अवश्यमहोदय भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः mm. बाल्ये बाल्ये mm -hmm. यावत् सः नन्दगोपास्य गृहे आसीत् तावत् वेणुः तस्य हस्ते सदा mm -hmm. भवति स्म एव mm. मधुरानगरं प्रति आगमनस्य अनन्तरं तस्य हस्ते वंशी न अदृश्यत तदा कृष्णः उत्तमः नेता तथापि सः तु वेणुहस्तः एव दृश्यते सर्वदा किं hmm. दत्तमस्ति तत्र स्वस्य भाषायां प्रयत्नं करोतु भगवान् श्रीकृष्णः सुप्रसिद्धः बिरिचिरिचि किं कारणार्थम् हस्ते वेणु अस्ति अतः सः सुप्रसिद्धः तस्य रूपः रूपं यद् तत् वेणुसहित एव दृश्यते तस्मात् कारणात् सः वेणुना एव सुप्रसिद्धः इति दत्तमस्ति अनन्तरम् बाल्ये गृहे तावत् धेनुः तस्यास्ते सदा भवति स्म अस्तु अस्तु अस्तु अस्तु अस्तु चिन्ता मास्तु यावत् तावत् यदा तदा यस्य तस्य एवं जायिनिङ्ग् वर्स् बाले बाल्ये यावत् सः नन्दगोपस्य गृहे आसीत् ेणु तस्ते सदास्म यीक नंदगोप नंदगोप इुक्त पिता नंदगोपस्ृहे यवत् आसी सह आसी तवत्म तर हस्ते वेणु सदा भवतिस्म। अभवत भूतकाल यावत्पर्यन्तं सः नन्दगृहे तिष्ठति स्म तावत्पर्यन्तं तस्य हस्ते वेयु भवति स्म इदानीं स्पष्टमस्ति स्पष्टमस्ति महोदय कस्य शब्दस्य विषये सन्देहः अस्ति वदतु Uh, yavat that was oh uh? I, i don't okay. understand it mini mini of okay yavat as, long as, as uh, long as he was staying with nandagopal nandagopal it took to krishna sripata as long as dah नन्दगोपालस्य गृहे आसीत् तावत् वेणुः फ्लुट् तस्य हस्ते आसी आसीदेव बाल्ये इत्युक्ते चैल्ड्हुड् ड्यूरिङ्ग् इ चैल्डहुड् डे हि वास् कण्टिन्युस्लि वित् द फ्लूट् हि वाीन् वित् फ्लूट् ओन्ली देट् इस् द मीनिङ्ग् अनन्तरं किं दत्तमस्ति मथुरा ध न भवेत् थ इति भवेत् मथुरानगरं प्रति आगमनस्य अनन्तरं तस्य हस्ते वंशी न अदृश्यत् वंशी इत्युक्ते वेणी वेणु एवं मथुरानगरं मथुरानगरं कस्य नगरमस्ति कंसस्य नगरं कंसः इति दुष्टः नृपः तस्य पध श्रीकृष्णभगवान् कृतवान् आसीत् अनन्तरं किम् अभवत् बहूनि कार्याणि कृतानि सन्ति उत्तमः राजनीतितेता तथापि सहतु तु वेणुहस्तः एव दृश्यते सदा वाट् एवर् वी सी एव्री टैन् वी सी फ्लूट इन् इस् हेण्ड् बहूनि कार्याणि कृतवान् सः भगवद्गीता महाभारतस्य युद्धप्रसङ्गे अनन्तरं द्यूतप्रसङ्गे द्रौपदीरक्षणार्थं बहूनि कार्याणि सन्ति परन्तु चित्रे किं दृश्यते वेणुसहितभगवान् श्रीकृष्णः यदा वयम् अस्माकं समीपे वा पुरतः कृष्णस्य मूर्ति इति कल्पनां कृतवान् कृतवन्तः तत् किं दृश्यते वेणुसहितकृष्ण एव दृश्यते सदा एवं दत्तमस्ति अस्तु महोदय स्पष्टं महोदय uh, पुनः एकवारं uh, श्रवणं करोतु नो चेत् पृच्छतु भवान् मेल् द्वारा वा अनन्तरम् अग्रिमे वर्गे अपि भवान् प्रश्नान् पृच्छन्तु निश्चयेन अस्तु इस्तु। इस्तु। अस्तु सर्वे सर्वेषां कृते एतत् अस्य सन्देहः सन्ति चेत् कृपया पृच्छन्तु अस्तु अग्रिमे श्रीवत्समहोदय भवान् पठति वा वंशीवादने गोपा गोपालेषु कथम् आसक्तिः उत्पन्ना इति विषये जेष्टानाम मुखतः श्रुता घटना एषा मीनिङ्ग् वेणुवादने वाद, गो गोपाल अत्र गोपाल मीनिङ्ग् श्रीकृष्ण भगवान् एव खलु वंशिवादने गोपालेषु कथम् आसक्तिः उत्पन्ना तत्र गोपालेषु इत्युक्ते गोपजनाः तत्र श्रीकृष्णस्य सर्वे यानि मिरा मित्री सी तु दत्मस्ोपालु कथ आसक्ति उत्पन्ना कृष्ण सहचारी कथ वेणुवादने आसक्ति अस् घटना कथा तर, तस्य विषये ज्येष्ठानां जे, मुखतः घटना एक एकथा श्रुता अस्ति श्रुता आसीत् ज्येष्ठानां मुखता इत्युक्ते मुखतः तत्र पञ्चमी इत्युक्ते तत्र अस्माकं परम्परयाः विषये दत्तमस्ति अस्माकं परम्परा अस्ति खलु ग्रेण्ड् चिल्ड्रन् एण्ड् देन् ग्रेण्ड् पेरेण्ट्स् सिटिङ्ग् अलाङ्ग् वित् देम् एण्ड् देन् टेलिङ्ग् स्टोरीस् ज्येष्ठानां मुखतः देट् इस् दि ट्रेडिशन् सो दिस् इस् दि स्टोरी रिलेटेड् टु वं वंशिवादने वेणुवादने कथं गोपालानाम् आसक्तिः उद्भूता इति अग्रिमे पठतु यदा यदा गो यदा बालाः कृष्णबाल कृष्णबलरामाभ्यां सह चरणाय वत्सान् वनं प्रति नयन्ति स्म तदा एकत्र वंशानां समूहः अदृश्यत तत्रगतवन्तः गतवन्तः गोपस् गोवत्साः किमपि शृण्वन्तः तत्र तत्रैव स्थितवन्तः कथमपि ते न प्रति निवर्तन्ते अथवा अग्रे न गच्छन्ति स्म गोपबालाः तत्र आगत्य तत् आकर्षति तत् किम् इति गावेशनम् आरब् आरब्धवन्तः अत्र किम् अभवत् एका घटना अत्र वर्णिता अस्ति एक एकस्मिन् दिने किम् अभवत् गोवत्साः एकस्मिन् स्थले एव स्थितवन्तः सर्वे गोवत्साः एकस्मिन् एक एव स्थले स्थितवन्तः अग्रे गच्छन्ति प्रति न निव निवर्तन्ते सर्वे अनन्तरं गोपबालाः अन्यगोपजनाः अन्ये बालकाः तत्र आगतवन्तः वत्सान् यत् आकर्षति तत् किम् कस्मात् कारणात् सर्वे वत्साः इत्र अत्र सम्मिलिताः सन्ति कस्मात् कारणात् वत्साः तत्र सम्मिलिताः आसन् तस्मिन् विषये गवेक्षणं गवेक्षणम् इति ओब्सर्वेशन् आरब्धवन्तः एका घटना वर्णिता अस्ति किम् अभवत् गोपबालाः सन्ति कृष्णबा कृष्ण कृष्णः आसीत् बलरामः आसीत् वत्सान् इत्युक्ते वत्सान् इत्युक्ते किं महोदय तदा तत्र सर्वे वत्साः एकस्मिन् एव स्थाने स्थितवन्तः वास् संथिङ्ग् वेरि इण्ट्रेस्टिङ्ग् विच् अट्रेक्टेड् आल् आफ़् देम् यत् आकर्षति तत् किं किमस्ति कस्मात् कारणात् सर्वे अत्र एव स्थितवन्तः किमपि शृण्वन्तः तत्र गतवन्तः गोवत्साः किमपि शृण्वन्तः तत्रैव स्थितवन्तः दे हर्ट् सम्थिङ्ग् एण्ड् देन् दे आर् वेर् तत्रैव स्थितवन्तः ओके स्पष्टमस्ति सर्वेषां कृते इत् पर्यन्तं अत्र गोवत्साः इत्युक्ते बहुवचना बहुवचना बहुवचनानि गोवत्साः इस् नाट् ओन्ली पुल्लिङ्गर् how does it go can you please explain that go no. vashaha it is depicted there were many cows you know okay yeah It's a group of cow right uh -huh. so what i thought go vashaha is the sense of cows no yeah Listen. but there were many cows and then they were all it was a huge group yeah dever in the form of group अतः गोवत्साः गोवत्सः सिङ्ग्युलर् गोवत्साः बहुवचनं गोवत्साः स्थितवन्तः गोवत्सः स्थितवान् अत्र अस्ति गोवत्साः अतः स्थितवन्तः पुल्लिङ्ग पुल्लिङ्ग पुल्लिङ्ग जनरल् टर्म् यथा वयं जनः वा जनाः इति सन्देहः अस्ति प्रवेशमध्ये गोशब्द पुल्लिङ्गमध्येपि आसीत् स्त्रीलिङ्गं सत्यं परन्तु तत्र गो वत्स इति पुल्लिङ्गि एव योजितम् बहुवचनरूपे किमपि शोक्तवन्तः तत्रापि दत्तवन्तः किल अतः बहुवचनरूपम् इति मन्ये अतः सर्वस्मिन् स्थलेषु प्रतिनिवर्तन्ते बहुवचन गच्छन्ति बहुवचनवन्तः स्पष्टमस्ति ओके अग्रे तरेमेव वदतु अनिता भगिनी ah, गोवत्साः शृणवन्तः tatraivas tavaṃtaḥ mm. what I have a doubt here is with respect to kim api um uh, is it supposed to be an object or a sub uh, i mean kar karma eller uh, or uh, karta go vatsāha kim api yeah. kim api ityukte they heard something Expert so whatever they heard yeah सर्वे गोवत्साः किमपि शृण्वन्तः तत्र गतवन्तः तत्रैव स्थितवन्तः ओके सो दू थिङ्ग् आर हेपनिङ्गेन दोङ्ग and then they are listening, and then they stop there only. They got mesmerized. Okay, now what is that that we have to see in the story? Okay, now what is that that we have to see in the story? Now, Pashantu Sarve, Tatra Sangeet Asya Mahati Asti, Swarana Mahati Asti Tat, Madura Swarana Mahati Tat, Tatra Iva Skitavanta Sarve. स्वरमाधुर्यकारणात् अग्रिमे अग्रिमे वयं पठिष्यामः इदानीं पर्यन्तं स्पष्टमस्ति अनिता भगिनी स्पष्टं स्पष्टमस्ति अस्तु अस्तु अस्तु इदानीं रा राधा भगिनी पठति वा राधा भगिनी हा हा राधा भगिनी पठतु वर्षानां वंशानां तत्र पश्यन्तु सर्वे गोपाः दृश्यन्ते रुन्द्रम् कृतवन्तः इत्यंशः तैः लक्षितः तस्मात् रन्ध्रात् निर्गच्छन् वायुः सुयं सुम् इति मधुरं शब्दं करोति स्म तं शब्दं शृण्वन्तः गोवत्साः आकृष्टाः सन्तः तत्रैव स्थितवन्तः आसन् किमभवत् अत्रैव वशानां ओ, बाम्बूशूट् दिस्टोरि आफ् ओरिजिन् आफ् फ्लूट् रन्ध्रीन् रन्ध्र इत्युक्ते होल्के इदानीं किम् अवगतं तत् ओके सो वक्षाणां मध्ये मध्ये रन्ध्रम् अस्ति पक्षिणः रन्ध्रं कृतवन्तः it is it has happened naturally shamyatam meeta beha pitavanta okay kopi so graha agata vanthah shamyatam oh. ah uh, bhavati anantaram krupaya mani mudranam shruno tu definitely baby hmm. satya this is a very beautiful youtube like make sure you, yeah. you... <laughs> definitely course, baby i will uh, listen okay thank you so much sorry yes. for thank you, you. धन्यवादः धन्यवाद राधा भगिनी दक्षिणः वंशमध्ये मध्ये रुन्द्रं कृतवन्तः अंशः तैः रक्षितः तत्रापि कर्मणि अस्ति लक्षितः, इत्युक्ते इट् हेण्ड् वेरि नेचुरलिन्ध्रात् रन्ध्रात् कारणं वायुः निर्गच्छन् सूयम् इति मधुरं शब्दः करोति ते शब्दः शृण्वन्तः गोवत्सः आकृष्टतः तथैव स्थितवन्तः सो एव्रिथिङ्ग् वास् हेनिङ्ग् वेरि नेचुरलि प्रकृतेः नियमानुसारणम् एवं भवति सो पक्तः रन्ध्रं कृतवन्तः वंशानां मध्ये मध्ये अनन्तरं तस्मात् वायुः निर्गच्छति अतः मधुरं शब्दं रन्ध्रा निर्गच्छन् वायुः मधुरं शब्दं करोति तम् शृण्वन्तः तेन गोवत्साः आकृष्टाः आसन तत्रैव ते स्थगितवन्तः स्टाण्ड् जस्ट् लिसनिङ्ग् टु देट् मेलेडियस् Okay. Okay. गोपबालाः hmm. अपि तेन शब्देन आकृष्टाः hmm. ते वंशं चित्वा तन्मध्ये लब्ध्वाकारकाणि कार रन्ध्राणि तत् रन्ध्राणि इति अस्ति परन्तु तत् रन्ध्राणि भगिनि रन्ध्राणि कृत्वा किञ्चित् वाद्यं सज्जीकृतवन्तः हा। इदानीं पश्यन्तु गोपबाला अपि तेन शब्देन आकृष्टाः इत्युक्ते किं गोपबालाः अपि ते, गोप ते, ते शब, शब्देन आकृ is attracted Te सम्यक् ते अपि वंशं छित्वा तन्मध्ये लघु आकाराणि लघु लघु आकारकाणि आकारकाणि krutva कृत्वा small स्माल् होल्स् वे आर् मेड् बै डेम् किञ्चन खाद्यं सज्जीकृतवन्तः सो देवेर् ऐडियासो मे वंशं छित्त्वा लघु लघु आकाराणि छिद्राणि रन्ध्राणि वाद्यस्य योजनां कृतवन्तः किञ्चन वाद्य ततः मुखवायुना यदा तत् वादितं तदा सुमधुरह ध्वनिः ध्वनिः अत्र पूर्वस्मिन् स्थले किम् तत्र वायुः अरण्यं वा तत्र उद्यानम् आसीत् तत्र वायुः रन्ध्रान् निर्गच्छन् मधुरं शब्दं करोति स्म परन्तु अनन्तरं मुखात् मुखवायु मुखवायुम् उपयुज्य तत्र वादनं कृतवन्तः गोपालः इट् वास् systematic way, युस्य योजनां कृत्वाधुरः समुत्पन्नः ध्वनेः उत्पादनं कृतवन्तः समीपे Uh, उपविश्य वेणुवादनम् आरम्भवन्तः ततः आकृष्टा गोवत्साः तान् अनुसृत्य आगमनम् आरम्भवन्तः आरब्धवन्त इदानीं किम् अभवत् वेणुवादनस्य आरम्भं कृतं गोपालेन तदापि गोवत्साः आकृष्टाः अभवन् वेणुवादनं श्रुत्वा तत्र आगमनम् आरब्धवतः आरब्धवन्तः ते अपि तत्र आगतवन्तः इति दत्तमस्ति yeah. सम्यक् भगिनी धन्यवादः धन्यवादः शाद्वलसमीपे इत्युक्ते किं भगिनी शाद्वल शाद्बल शाद्बलसमीपे तत्र उपवनम् अस्ति खलु यमुनायाः तीरे तत् यमुनायाः तीरे तत्र एकः भागः तत्र सर्वे सम्मिलिताः आसन् इति स्थानस्य okay, okay. नाम शाद्वल इति ओके oh, थेक् okay, यु भगिनी वीणा भगिनी इदानीं अहमेव स समाप्तं करिष्यामि वा अहं पठामि वा भगिनी का पठितवती इदानीं वीणाभगिनी पठितवती खलु इदानीं राधाभगिनी पठति वा पठितवती पूर्वे आम् अहमपि पठितवती पूर्वे अस्तु रमणी भगिनी पठति वा भवती रमणी भगिनी भगिनि एवं ते गोपालकाः एवं hmm. प्रथम प्रथम वंशीवादकाः अभवन् hmm. एतत् एव वंशीवाद्यस्य मूलम् hmm. एवं वंशीवादस्य वंशीवादनस्य मूलकारणं गोपालकाः वंशी एव hmm. अग्रिमे अपि पठतु कृष्णः कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते अपि वेणुः अतिष्ठत् कृष्णकारणतः वेणोः अनितरसाधारणख्यातिः अपि जाता किं दत्तमस्ति अत्र भगिनी कृष्णः कोपकुले एव जातः कोपबालानां हस्ते सदा वेणु अस्ति स्म अतः कृष्णः अपि वेणु वेणुवादनं कृतवान् तत्र इति वेणोः समुत्पत्तिः कथम् अभवत् तस्य विषये एषा कथा एतत् एव वाद्यस्य मूलम् नौ वी केन् सी वेनि मेनी वेरियेशन्स् इन देट् पर्टिक्युलर् फ्लूट् वादनं तत्र परन्तु तत्र आगमः मूलतः तत्र गोपालका तेन एव आरब्धम् अस् एव आरम्भम् अभवत् इति विषयस्य एषा कथा एवं खलु कथम् अभवत् इति इदानीं अनिता भगिनी लेफ्ट् अभवत् ओके श्रीवत्समहोदय भवान् वदति वा कथायाः विषये अनन्तरं वयं वे वेणुना वेणुनादस्य आरम्भं कदा भवति इति कथस्य पूर्णकथस्य विषयः हम उम एकस्मिन् काले गोपाल गोपालकः उम what is the word for rams केउस उम अ vat uh, vat what, whatsa whatsa uh, what's, uh, um whatsa uh, right uh, go vatsaha go vatsaha uh -huh. uh, um ekasminkale gopala kah uh, um, go vatsaha uh, um sarve go vatsaha akrushtaha asan तस्मिन् समये गोपालकाः अन्वेषणं कृतवन्तः अन्वेषणं कृत्वा तैः स्वयं वेणोः नादं कृतम् कृतम् अनन्तरं वेणुवादनस्य आरम्भम् अभवत् अस्तु अस्तु अत्र पश्यन्तु अस्माकं शास्त्रे यानि यानि वाद्यानि सन्ति अत्र माहेश्वरसूत्राणि सर्वे जानन्ति खलु माहेश्वरसूत्राणि जानन्ति सर्वे वदन्तु ओके माहेश्वरसूत्राणि इत्युक्ते तत्र ऐयुण्ड्रुल्लु ए औम् ऐ औचाय वर्टरनयमङ्गणनं जभय घडदश् जभ घश् खफ चटथ चटथव कपय् शसर हल् तत्र माहेश्वरसूत्राणि महर्षिपाणिनिना दत्तानि सन्ति इट् इस् एन् देट् भगवान भगवान् शिवशङ्करमहादेव तस्य दम्रुवादनात् माहेश्वरसूत्राणि निर्मितानि एवम् अत्रापि वेणुवादनस्य आरम्भं कथम् अस्माकं या वाद्यपरम्परा अस्ति मृदुङ्गं वा वेणुवादनं वा अन्ये वा, अपि वाद्या वाद्यानि सन्ति तेषां विषयस्य विविधानि विविधाः कथाः सन्ति अत्र एका कथा अस्ति अत्र एका कथा अस्ति वेणुवादनस्य जन्मकथा एवं वक्तुं शक्नुमः अस्तु वेणु वेणु इत्यस्य महत्त्वं किमस्ति एकं वदामि अनन्तरं वयं समापयामः वेणु तत्र छिद्रसहितः अस्ति खलु तत्र छिद्राणि सन्ति एवं खलु किं बुधैः जनैः तत् दत्तमस्ति किमर्थम अहंकार भावनाया, एकताद छिद्रा किमे अस्कनाय अन्ये ये गुणा सी त्यजनम करनीय सच्छिद्री अस्त अहङ्काररहितः अस्ति इफ् यु लुक् एट् दर्टिक्युलर् फ्लोट् इट् इस् कम्प्लीट्लि एम्टि फ्रोम् इन्सैड् देट् इस् अहङ्काररहितः अतः सा कृ श्रीकृष्णस्य प्रिया वयमपि अहङ्कारत्यजनं कृत्वा अहं करोमि इति वृथा अभिमान तस्य तेजनं कृत्वा ईश्वरस्य समीपे गन्तुं शक्नुमः एवमस्ति बोधकथा इदानीं वयं स्थगयामः श्यामलाभगिनी वा अन्य कोऽपि शान्तिमन्त्रं वदति वा वदामि हा वदतु वदतु सर्वे भवन्तु सुखीनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभा भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः